अचैकचत्वारिंशः सर्गः स च वाग्भिः प्रशस्ताभिर्गमिष्यम् पूजितस्तया तस्माद्देशादपाक्रम्य चिन्तयामास वानरः अल्पशेषमिदम् कार्यम् दृष्टेयमसिते क्षणा त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते न न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेषममेह रोचते न चास्य कार्यस्य पराक्रमादृते पराक्रमा विनिश्चयः कश्चिदिहोपपद्यते हतप्रवीराश्चरणे तु राक्षसा कथञ्चिदीयुर्यदिहाद्यमार्दवम् कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत् पूर्वकार्याविरोधेन स कार्यम् कर्तुमर्हति न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः यो ह्यर्थम् बहुधा वेद समर्थोऽर्थसाधने इहैव तावत्कृतनिश्च मम भर्तृशासनम् कथम् नु खल्वद्य भवेत् सुखागतम् प्रसह्य युद्धम् मम राक्षसैः सह तथैव खल्वात्मबलम् च सारवत् समानयेन्माम् च रणे दशाननः ततः रणे दशाननम् स मन्त्रिवर्गम् स बलम् तस्य मतम् बलम् च सुखेन इदमस्य भृशंसस्य नन्दनोपममुत्तमम् वनम् नेत्र मनःकान्तम् नानाद्रुमलतायुतम् इदम् विध्वंसयिष्यामि शुष्कम् वनमिवानलः अस्मिन् भग्ने ततः कोमम् करिष्यति स रावणः ततो महत्साश्वमहारथद्विपम् बलम् समानेष्यति राक्षसाधिपः त्रिशूल कालाय स ततो महद्युद्धमिदम् भविष्यति अहञ्च तैः संयति चण्ड विक्रमैः समेत्य रक्षोऽभिरभङ्गविक्रमः निहत्य तद् गमिष्यामि हरीश्वरालयम् ततो मारुतवत् क्रुद्धो मारुतिर्भीम विक्रमः ऊरुवेगेन ततस्तद्धनुमान् वीरो बभञ्ज प्रमदावनम् मत्तद्विजसमाघुष्टम् नानाद्रुमलतायुतम् तद्वनम् मथितैर्वृक्षैर्भिन्नैश्च सलिलाशैः शूर्णितैः पर्वताग्रैश्च बभूवा प्रियदर्शनम् नानाशकुन्तविरुतैः प्रभिन्न ताम्रैः किसलयैः कान्तैः क्लान्त द्रुमलतायुतैः न यथा व्याकुलावरणा रेजुर्विह्वला इव तालताः लता ग्रहैश्चित्रग्रहैश्च साधितैर्व्यालैर्मृगैरार्तरवैश्च पक्षिभिः शिलाग्रहैरुन्मथितैस्तथा सा विह्वला शोकलता प्रतानावनस्थली शोकलता प्रताना जाता दशास्य प्रमदावनस्य कपेर्बलाद्धिर्प्रमदावनस्य ततः स कृत्वा जगती पतेर्महान्महव्यलीकम् मनसो महात्मनः युजुत्सुरेको बहुभिर्महाबलैः श्रियाज्ज्वलम् स्तोरणमाश्रितः कपिः त्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकचत्वारिंशत् सर्गः